नमो हिरण्यवाहवे हिरण्यबाहवे सेनान्ये दिशा हिरण्यबाहव इति हिरण्यबाहवे सेनान्ये दिशाम् दिशागुम् सेनान्ये सेनान्ये दिशाम् च दिशागुम् सेनान्ये सेनान्ये दिशाम् च सेनान्य इति सेना न्ये दिशाम् च दिशाम् दिशाम् च पत जे पतयेत दिशाम् दिशाम् च पतये चपतजे पतयेत चपत ये चपतये नमः पतये नमो नमस्पतजे पतये नमः Namo Namaha Namo Vritya Bhyo Vritya Bhyo Namo, namo Vritya Bhyo Hari Ke Se Bhyo Vritya Bhyo, vritae, bhyo, namo, namo vritae, bhyo harikee, वृक्षेभ्यो हरिकेशेभ्यो हरिकेजेभ्यो वृक्षेभ्यो वृक्षेभ्यो हरिकेशेभ्यः पशूनां पशूनागुं हरिकेशेभ्यो वृक्षेभ्यो वृक्षेभ्यो हरिकेशेभ्यः पशूनाम् हरिकेशेभ्यः पशूनाम् पशूनागुम् हरिकेशेभ्यो हरिकेशेभ्यः पतये पतये पशूनागुम् हरिकेशेभ्यो हरिकेशेभ्यः पतये हरिकेशेभ्य इति हरि केशेभ्यः पशूनाम् पतये पतये पशूनाम् पशूनाम् पतये नमो नमस्पतये पशूनाम् पशूनाम् पतये नमः पतये नमो नमः पतये नमो नमः नमो नमः नमषस्पिञ्जराय षस्पिञ्जराय नमो नमषस्पिञ्जरायत्विषीमते त्विषीमते षस्पिञ्जराय नमो नमषस्पिञ्जरायत्विषी मते षस्पिञ्जरा यत्विजीमते विजि मते पथिनां पथिनान् विजि मते द्विजि मते पथीनां पतये पतये पथिनान् पत विजि मते त्विजि पतये विजि मदयति द्विजि मते पथीनाम् पतये पतये पथीनाम् पथीनाम् पतये नमो नमस्पतये पथीनाम् पथीनाम् पतये नमः पतये नमो नमः पतये नमो नमः नमो नमः namo <Num>, babhrojaya babhrojaya namo namo babhrojaya vyadhine vyadhine babhrojaya namo namo babhrojaya vyadhine babhrojaya vyadhine vyadhine babhrojaya babhrojaya vyadhine nana <Num> namana ्याधिने बभ्रुषाय बभ्रुषाय विव्याधिनेर्नानाम् विव्याधिनेर्नानामन्नानाम् विव्याधिनेविव्याधिनेन्नाम् पतये पयेनाम् विव्याधिने विव्याधिनेनाम् पतये विव्याधिन इति व्याधिने अन्नाम् पतये पतयेनामन्नानाम् पतये नमो नमस्पतयेन्नमन्नाम् पतये नमः पतये नमो नमस्पतये पत harikeshaaya harikeeshaaya namo namo harikeshaaya opaveetina opaveetine harikeshaaya namo namo harikeshaaya opaveetine harikeshaaya opaveetina उपवीतिने हरि केशाय हरि केशायोपवीतिने पुस्तानाम् पुष्टानामुपवीतिने हरि केशाय हरि हरि केशायति उपवीतिने पुष्टानाम् पुष्टानामुपवीतिन उपवीतिने पुष्टानाम् पतये पतये पुष्टानामुपवीतिन उपवीतिने पुष्टानाम् पतये उपवीतिन इत्युप वीतिने पुष्टानाम् पतये पतये पुष्टानाम् पुष्टानाम् पतये नमो नमस्पतये पुष्टानाम् पुष्टानाम् पतये नमः पतये नमो नमः पतये नमो नमः नमो नमः नमो भवस्य भवस्य नमो नमो भवस्य हेत्यै हेत्यै नमोत्यै भवस्य हेत्यै हेत्यै भवस्य भवस्य हेत्यै जगताञ्जगतागुम्हेत्यै भवस्य भवस्य हेत्यै जगता <surrender> <Swell> हेत्यै जगतां जगतागुं हेत्यै हेत्यै जगतां पतये पतये जगतागुं हेत्यै हेत्यै जगतां पतये जगताम् पतये पतये जगताम् जगताम् पतये नमो नमस्पतये जगताञ्जगताम् पतये नमः पतये नमो नमस्पतये पतये नमो नमः नमो नमः नमो रुद्राय रुद्राय नमो नमो रुद्राया तता आतताविने रुद्राय नमो नमो रुद्राया तताविने रुद्राया तता आतताविने रुद्राय रुद्राय तता विने क्षेत्रणामक्षेत्रणामातताविने रुद्राय रुद्राय तता आतताविने क्षेत्रणा आतताविने क्षेत्रणामक्षेत्रणामातता विना आतता विने क्षत्राणाम् पतये पतये क्षत्राणामातता विन आतता विने क्षेत्राणाम् पतये आतता विन इत्या तता क्षेत्राणां पतये पतये क्षेत्राणां क्षेत्राणां पतये नमो नमस्पतये क्षेत्राणां क्षेत्राणां पतये नमः पतये नमो नमस्पतये पतये नमो नमः नमो नमः नमःताय सोताय नमो नमःतायाहं त्यायाहत्यायसोताय नमो नमःतायाहं सुताहं त्यायाहं च्यायसुताय सोतायाहं त्याय वनाम्बनानाम् अहम् च्यायसूताय सूतायाहन्त्यायवनानाम् अहम् त्यायवनानाम् वनानामहन्त्यायाहन्त्यायवनानाम् पतये पतये वनामहन्त्यायाहन्त्याय वनानाम् पतये वनाम् पतये पतये वनाम् वनाम् पतये नमो नमस्पतये वनाम् वनाम् पतये नमः पतये नमो नमः पतये नमो नमः नमो नमः नमो रोहिताय रोहिता जनमो नमो रोहिताय स्थपत ये स्थपत ये रोहिता जनमो नमो रोहिताय स्थपत रोहिताय स्थपत ये स्थपतये रोहिताय रोहिताय स्थपत ये वृक्षाणा रोहिताय रोहिताय स्थपत ये पपतये वृक्षाणां वृक्षाणागस्थपतय स्थपतय वृक्षाणाम् पतये पतय वृक्षाणागस्थपतय स्थपतये वृक्षाणाम् पतये वृक्षाणाम् पतये पतये वृक्षाणा आम् पतये नमो नमस्पतये वृक्षाणा आम् वृक्षाणाम् पतये नमः पतये नमो नमस्पतये पतये नमो नमः नमो नमः नमो मंत्रिणे मंत्रिणे नमो नमो मंत्रिणे वाणिजा वाणिजा मंत्रिणे नमो नमो मंत्रिणे जाय मन्त्रिणे वाणिजाय वाणिजाय मन्त्रिणे मन्त्रिणे वाणिजाय कक्षाणां कक्षाणाम् वाणिजाय मन्त्रिणे मन्त्रिणे वाणिजाय कक्षाणाम् वाणिजाय कक्षाणां कक्षाणाम् वाणिजाय वाणिजाय कक्षाणाम् पतये पतये कक्षाणाम् वाणिजाय पतये कक्षाणाम् पतये पतये कक्षाणाम् कक्षाणाम् पतये नमो नमस्पतये कक्षाणाम् कक्षाणाम् पतये नमः पतये नमो नमस्पतये पतये नमो नमः नमो नमः नमो भुवन्तये भुवन्तये नमो नमो भुवन्तये वारिवस्कृताय वारिवस्कृताय भुवन्तये नमो नमो भुवन्तये वारिवस्कृताय भुवन्तये वारिवस्कृताय वारिवस्कृताय भुवन्तये भुवन्तये वारिवस्कृतायौषधीनामौषधीनां वारिवस्कृताय भुवन्तये भुवन्तये वारिवस्कृतायौषधीनाम् वारिवस्कृतायौषधीनामोषधीनां वारि स्कृताय वारिवस्कृतायौषधीनाम् पतये पतय ओषधीनाम् वारिवस्कृताय वारिवस्कृतायौषधीनाम् पतये पारिवस्कृतायति वारिवः कृताय ओषधीनाम् पतये पतय ओषधीनामोषधीनाम् पतये नमो नमः ओषधीनामोषधीनाम् पतये नमः पतये नमो नमः पतये नमो नमः नमो नमः नम उच्चैर्घोजायोर्च्चैर्घोजाय नमो नमः उच्चैर्घोषया क्रन्दयत आक्रन्दयत उच्चैर्घोषाय नमो नमः उच्चैर्घोषाया क्रन्दयते उच्चैर्घोषाया क्रन्दयत आक्रन्दयत उच्चैर्घोषायोच्चैर्घोषाय क्रन्दयते पथीनाम् पत्थीनामाक्रन्दयत उच्चैर्घोषायोच्चैर्घोषाया क्रन्दयते पथीनाम् घोषाय आक्रन्दयते पत्तीनाम् पत्तीनामाक्रन्दयत आक्रन्दयते पत्तीनाम् पतये पतये पत्तीनामाक्रन्दयत आक्रन्दयते पत्थीनाम् पतये आक्रन्दयत इत्या क्रन्दयत् पत्तीनाम् पतये पतये पत्तीनाम् पत्तीनाम् पतये नमो नमस्पतये पत्तीनाम् पत्तीनाम् पतये नमः पतये नमो नमस्पतये पतये नमो नमः नमो नमः नम कृत्वीतायताय नमो नमा धावते धावते धाव धावत्नताय नमो नमत्नताय धावते कृत्स्नवीताय धावते धावते कृत्स्नवीताय कृत्स्नवीताय धावते सत्त्वनाकुं सत्त्वनान् धावते कृत्स्नवीताय कृत्स्नवीताय धावते सत्त्वनाम् कृत्स्नवीतायेति कृत्स्न वीताय धावते सत्त्वनागुं सत्त्वनान् धाव धावते सत्त्वनां पतये पतये सत्वनान् धावते धावते सत्त्वनाम् पतये सत्त्वनाम् पतये पतये सत्त्वनागुम् सत्त्वनाम् पतये नमो नमः सत्त्वनागुम् सत्त्वनाम् पतये नमः पतये नमो नमःपतये पतये नमः नम इति नमः नमो हिरण्यवाहवेः